हस्यम् ॐ अस्य श्री सप्तसती रहस्य त्रयस्य नारायणऋषिः अनुष्टुच्छन्दः महाकाली महालक्ष्मी महासरस्वतो देवता यथोक्तफलावाप्यर्थं जपे राजवाच भगवन्नवतारापि चण्डिकाया स्वयोजिता एतेषां प्रकृतिं ब्रह्मन् प्रधानं वक्तुमर्हसे आराध्यं मन्मया देव्या स्वरूपं येन च द्विज विधिना सकलं यथावत् प्रणतस्य मे ऋषिर्वाच इदं परमं अराखेयं अनाख्येयं प्रचक्षते भक्तोऽशीतिमृं न मे किञ्चे नराधिप सर्वस्याद्या महालक्ष्मी त्रिगुणा परमेश्वरी लक्षालक्षस्वरूपा सा व्यवस्थिता मातुलङ्गं गदां खेटम् पानपात्रं च विभ्रती नागं लिङ्गं च योनिं च बिभ्रतीपमुदशरीम् तप्तकाञ्चन वर्णाभां तप्त काञ्चन भूषणां शून्यं तदखिलं श्वेना पूरयामास तेजसा शून्यं तदखिलं लोकं विलोक्य परमेश्वरी बभारपरमं रूपं तमसा केवलेन हि सा भिन्नाञ्जनसङ्काशा द्रष्टाङ्कृतवराननां विशालोचना नारी बभूवतनुमध्यमा खड्गपात्रशिरखेटै अलङ्कृतचतुर्भुजा कबन्धहारं शिरसा बिभ्राणा हि शिरस्रजम् सा प्रोवाच महालक्ष्मीं तामसी प्रमदोत्तमां नामकर्म च मे मातर्देहितोभ्यं नवो नवः तां प्रोवाचमहालक्ष्मी तामसी प्रमदोत्तमां ददामि तव नामानि यानि कर्माणि तानि ते महामायामहाकाली महामारीक्षुधा निद्रातिष्णा चैकवीरा कालरात्रिदुरत्यया इमानि तव नामानि प्रतिपाद्यानि कर्मभिः एभिः कर्माणिते ज्ञात्वा योधी ते सोऽस्तु ते सुखं तामित्युक्त्युक्त्वा महालक्ष्मी स्वरूपममक् परं निप तत्त्वाख्येनातिशुद्धेन गुडे गुणेनेन्दुप्रभं दधौ अक्षमालां वीणापुस्तकधारिणी सा बभूवरा नारी नामान्यस्यै च सा ददौ महाविद्यामहावाणी भारती वाक्सरस्वती आर्याब्राह्मी कामधेतुर्वेदगर्भाजधीश्वरी अथोवाच महालक्ष्मी महाकालीं सरस्वतीं युवां जनयतां देव्यौ मिथुने स्वानिरूपतः यत्युक्ला ते महालक्ष्मी ततर्जमिथुनं क्षयं हिरण्यगरभौरुचिरौ श्रीपुंसौ कमलाशरौ ब्रह्मण्डिविञ्चेते धातरित्याहतं नरम् श्रीपद्मेकमले लक्ष्मीत्याह माता च तां श्रियम् महाकाली भारती च मिथुने सृजतशः एतयोरपि रूपाणी नामाणी च वदामि नीलकण्ठं रक्तबाहुं श्वेताङ्गं चन्द्रशेखरम् जनयामासपुरुषं महाकालीसितां श्रियं स रुद्रशङ्करं साढु कपरति च त्रिलोचनः त्रयीविद्याकामधेनु सा श्रीभासाक्षरास्वरां सरस्वती श्रियं गौरीं कृष्णं च पुरुषं नृप जनयामास नामाडी तयोरपि विष्णु कृष्णो शिशिकेशो वासुदेवो जनार्दनः उमा गौरी सती चण्डी सुन्दरी सुभगा शिवा एवं युवतय सद्य पुरुषस्त्वं प्रपेतिरे चक्षुष्मन्तोऽनुपश्यन्ति नेतरे तद्विदो जनाः ब्रह्मणे प्रददौ पत्नीम् महालक्ष्मीरृपत्रीं रुद्राय गौरिं वरदां वासुदेवाय च श्रियं स्वरयां सह विप्सम्भूव विरिञ्चोण्डमजीजन भगवान् रुद्र तद्गौर्या सह वीर्यवान् प्रधानादि कार्यदातम् अभुन्नृप महाभूतात्मकं सर्वं जगस्वास्थवरजङ्गमं जगस्थावरजङ्गमं पुपोषपालयामास तल्लक्ष्मा संजहार केशवः सञ्जहारजगत्सर्वं सः गौर्यामहेश्वरः महाराज सर्वषत्त्वमहेश्वरी निराकारा च साकारा तैव नालाभिधानवे नमान्तरैर्निरूप्यैषा नाम्ना नाणेन केनचे ॐ श्री दुर्गादेव्यै नमः